कन्या रक्षस्सु साध्वस्मि राज्ञीसालकटङ्कटी पुत्रेण तव संयुक्ता युवतिर्देववर्णिनी सर्वान्वोऽहमुपस्थास्ये पुरस्कृत्यवृकोदरम् अप्रमत्ताप्रमत्तेषु शुश्रूषुरसकृत्वहं व्रजिनात् तरयिष्यामि दुर्गेषु विषमेषु च पृष्ठेन वो शीघ्रं गतिमभीप्सतः यूयं प्रसादं कुरुत भीमसेनो भजेत आपदस्तरणे प्राणान् धारयेदेन तेन सर्वमावृत्यकर्तव्यं तं धर्ममनुवर्तत आपत्सुयोधारयति धर्मं धर्मविदुत्तमः व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते पुण्यं प्राणान् धारयति पुण्यं प्राणदमुच्यते येन येनाचरेद्धर्मं तस्मिन् गर्हा विद्यते महतोऽत्र स्त्रियं कामाद्बाधितां त्राहि मामपि धर्मार्थकाममोक्षेषु दयां कुर्वन्ति साधवः तं तु धर्ममिति प्राहुः मुनयो धर्मवत्सलाः दिव्यज्ञानेन पश्यामि अतीतानागतानहम् तस्माद् वक्ष्यामि आसन्नं सर उत्तमम् अद्यासाद्यसरस्नात्वा विश्रम्य च वनस्पतौ व्यासं कमलपत्राक्षं दृष्ट्वा शोकं विहास्यथ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 पीतमात्रे तु पानीये क्षुत्पिपासे विनश्यतः तपसा शालिहोत्रेण सरोवृक्षश्च निर्मितः कादम्बाः सारसाहंसाः कुरर्यः कुररैः सह रुवन्ति वैशंपायन उवाच तस्यास्तद्वचनं श्रुत्वा कुन्तीवचनमब्रवीत् युधिष्ठिरं महाप्राज्ञं सर्वशास्त्रविशारदं कुन्त्युवाच त्वं हि धर्मभृतां मयोक्तं शृणु भारता राक्षस्येषा हि वाक्येन धर्मं वदति साधु भावेन दुष्टा भीमं सा किं करिष्यति राक्षसी भजतां पाण्डवं वीरं अपत्यार्थं यदिच्छसि युधिष्ठिर उवाच एवमे एवमेतद्यथात्वं हिडिम्बेनात्र संशयः स्थातव्यं तु त्वया सत्ये यथा ब्रूयांसुमध्य मे